द्रघण्टानिरादाभिरामं शलताण्डवो दण्डवन्मतालं लतुलाङ्गोपरिव्यालहारं गणादिशमीशानसोणं धमीडे ध्वनिध्वं समी स्फोरचुन्ददन्दोलसद्बीयपूरं गलद्दर्पसौ गन्ध्यलोलालिमालम् घनादीशमीशानसूनोन्तमीडे प्रकाश जपारसून प्रवाल रुण ज्योतिरेकं प्रलम्बोदरं वक्रतुण्डैकदन्तं गणादीशमीशानसूनन्दमीडे विचित्रस्फुरद्र नमाला किरीटं किरीटो लसच्चन्द्ररेखा विभूषम् विभूषैकभूषं भवद्वं सहेतुं गणादिशमीशानसूलुं धमीरे उदन् च भुजावल्लरिदृश्य मूल मरुत्सुन्दरीचामरै सेव्यमानं गणादिशमीशानसूनोन्दमिरे स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं कृपाकोमलोदारलीलावतारम् कलाबिन्दु गङ्गी ते योगिवर्ये गणादीशमीशानसूनु यमेकाक्षरं निर्मलं निर्विकल्पं गुणातीतमानन्दमाकारशून्यं परम्पारमोङ्कारमानाय गर्भं वदन्ति प्रगल्भं पुराणं तमिळे चिदानन्दसान्द्राय शान्ताय तुभ्यं नमो विश्वकर्त्रे च हर्त्रे च तुभ्यं नमो नन्दलीलाय कैवल्यभाषे नमो विश्वबीजप्रसीदेशसून इमं तरुत्थाय भक्त्या पतेद्यस्तु पतेद्यस्तुमर्त्यो लभेत् सर्वकामान् गणेशप्रसादेन सिध्यन्ति वाचो गणेशे विभो दुर्लभं किं प्रसन्ने